श्रीहरे नमः अत एकोनविंशोऽध्यायः राजोवाच व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितं तस्य वेदितुमिष्ठामि येन विष्णौ प्रसीदति <Sýsėkstedh> byrna, शुक्ले मार्गशिरे पक्षे योषिद्भर्तु अनुज्ञया आरभेतव्रतमितं सार्वकामिकमादितः विषम्यमरुतां जन्म ब्राह्मणाननुमन्त्रय च स्नात्वा शुक्लदती शुक्ले वसितालङ्कृताम्बरे पूजयेत् प्रादराशात्प्राक् भगवन्तं श्रिया अलं ते निरपेशाय पूर्णकामनमोऽस्तु ते महाविभूतिपतये नमः सकलसिद्धये यथा त्वं कृपया भूद्या तेजसा मयिनौ जसा, जसा। जुष्ट ईशगुणैः सर्वैस्ततोऽसि भगवान् प्रभुः विष्णुपत्नीमहामाये महापुरुषलक्षणे प्रीयेता मे महाभाहे लोकमातर्नमोऽस्तु ते ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सखमहाविभूतिबेर्बलिम् उपहराणैति अनेन अहर कर्मन्त्रेण विष्णो आवाहनार्घ्यपाद्योपस्पर्शणस्नानवास उपवीतविभूषणगन्तपुष्पधूपदीपोपहाराद्युपचारांश्च समाहित उपाहरेत् हविशेषं तु जुहुयात् अनले ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति श्रियं विष्णुं च भरदां वासिषां प्रभवौ वभौ भक्त्या सम्पूजयेन्नित्यं यदिश्चेत् सर्वसम्भतः प्रणमेद्दण्डवद्भूमौ भक्तिप्रक्वेण चेतसा दशवारं जपेन्मन्त्रम् तत स्तोत्रम् उदीरयेत् युवां तु विश्वस्य विभूं जगतः कारणं परम् इयं हि प्रकृतिसूक्ष्मा मायाशक्तिर्धुरत्यया तस्या अधीश्वरसाक्षात् त्वमेव पुरुषः परः तं सर्वज्ञयुज्येयम् क्रियेयं फलभोग् भवान् गुणव्यक्तिरियं देवी व्यञ्जगो गुणभोग् भवान् त्वं हि सर्वस्त्रीर्यात्मा श्रीश्ररीरेन्द्रियासया नामरूपे भगवति प्रत्यस्यस्त्वम् अपाश्रयः यथा युवां त्रिलोकस्य वरतौ परमेष्टिनौ तथा म उत्तमश्लोक सन्तु सत्यामहाशिषः इत्यभिय वरधं श्रीनिवासं श्रिया सः तन्निसार्योपहरणं दत्वा चमनं अर्चयेत् ततस्तु वीतस्तोत्रेण भक्तिभ्रमेण चेतसा यज्ञोचिष्टम् उपग्राय पुनरभ्यर्चयेत् हरिं पतिं च परया भक्त्या महापुरुषचेतसा प्रियस्तैस्तैस्तपनमेत् प्रेमशीलव्यसम्पतिः बिभ्रूयात् सर्वकर्माणि पत्न्या उच्चावचानि च कृतमेकतरेणापि दम्पत्यो अभयोरपि पत्न्यां कुर्यातनर्हायां पतिरेतत् समाहितः विष्णोर्व्रतमितं बिभ्रन्नवहिन्यात्कथञ्चन विप्रां स्त्रियो स्रग्न्तः बलिमण्डनैः अर्चेदहर देवं भक्त्या देवम् उद्वास्य देवं स्वेधाम्नि तन्निवेदितमग्रतः अद्यातत्मविशुद्ध्यर्थं सर्वकामर्धयेतत एतेन पूजा विधिना मासान्द्वादशहायनं नीत्वातोपचरेत् साध्वी कार्तिके चरमेहनि सर्वभूते पवुपस्पृश्य कृष्णमप्यर्च पूर्ववत् पयः जुहुया शरुणा सह सर्वेषां पाकयज्ञे पिधानेन द्वादशै बाहुतीपतिः आशिष समीरिताः प्रणम्य शिरसा आचर्यम् अक्रध कृत्वा वाक्यतः सखबन्धुभिः दद्यात् पत्न्यै शरोशेषम् सुप्रजस्त्वम् सुसौभगम् एतश्चरित्वा विधिवत् व्रतम् अभीप्सितार्थं लबते पुमानिः श्रीत्वे तत्तास्ताय लभते सौभकं श्रियं प्रजां जीवपतिं यशोगृहं कन्याच च समग्रलक्षणं वरं त्ववीराहतकल्भिषा गतिं मृत विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्पदेहम् एतत्पठन्नभ्युदये च कर्मणि अनन्दतृप्ति पितृदेवतानां तुष्टाप्रयश्चन्नि समस्तकामान् होमावसाने हुतभोक्शेर्हरिश्च राजन्महन्मरुता जन्म पुण्यम् दितेर्व्रतं चाभिहितं महते राजन्महन्मरुतां जन्म पुण्यं चाभिहितं महते इति श्रीमद्भागवते महापुराणे वैयाशिक्यामष्टादशसाहस्यां पारमहंस्यां संहितायां षष्ठस्कन्ते पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः इति षष्ठस्कन्दसमाप्तयः हरिवों तस्ते सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज की जय